श्रीभद्भागवत् महापुराण सप्तमस्कन्ध अथ सप्तमोऽध्यायः प्रह्लादजी द्वारा माता के गर्भ में प्राप्त हुए नारदजी के उपदेश का वर्णन नारं दैत्यसुतये पृष्टो महाभागवतो सुरः उवाच स्मस्तान् स्मरन्भाषितम् प्रह्लाद वाच पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलं युद्धोद्यमं परं चक्रुर्विभुधा दानवान् प्रती पिपीलिकैरहमिली ह्रीदेवदृष्ट्यालोकोपतापनः पापेन पापो भक्षीति वाजिनो वासवादयः तेषां मतिबलोद्योगं निर्यूतपाः वध्यमानासुरैभीता तदृदु सर्वतो दिशं करत्र पुत्रमित्रान् गृहान् पशुपरिच्छदान् नवीक्षमाणाः स्फरिताः सर्वे प्राणपरिषवः बलुम्पन् राजिभिरम् अमराजकाङ्क्षिणः इन्द्रस्तु राजमहिषं मातरं मम चागृहीत नियमानं भयोद्विग्नां हृदतिं कुररीमिव यदीक्षया गतस्तत्र देवर्ति दं दिसे पथित्राहमहिनां सुरपतेर्नेतुर्मर्हस्य नागसं मुञ्च मुञ्च महाभाग सतिं परं परिग्रहम् इन्दुवाच आस्ते स्याजठरे वीर्यम् अविसह्यं सुरद्विषः आस्यतां यावत्प्रसवं मोक्षेथ पदवीं गतः नारद्वाच अयं न साक्षान् महाभागवतो महान् त्वया न प्राप्स्यते संस्थामनन्तानुचरो बलि इत्युक्तस्तां विहायेन्द्रो देवरसीमाणियल् वचः अनन्तप्रियभक्तीनां परिक्रम्य दिवं ययौ ततो नो मातरं ऋषिः समानीय निजाश्रमम् आश्वासे होषतां वत्से यावत् ते भर्तुरागमः तथेत्यवासि ददिवर्तेहन्ति स्थाप्य कुतो भयां यावद्दैत्यपतिर्घोरात्तपसो न निवर्तत ऋषिं पर्यचरत्तत्र भक्त्या परमया सती अन्तर्वती स्वगर्भस्य क्षेमायैच्छा प्रसूतये ऋषिकारुणिकस्तस्याः प्राधादुर्भयमीश्वरः धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलं तत्तु कालस्य दीर्घत्वा स्त्रित्वान् मातुरिमातुर्षि रोदधे कृष्णानुगृहीतं मां नाधुनाप्यजहा स्मृतिः भवतामपि भूयान्मे यदि श्रद्ध्यते वतः वयसारथीति श्रद्धातः स्त्रीबालानां च मे यथा जन्माद्याश्रमे भावः दृष्टादिहस्य नात्मनः फलानामेव वृक्षस्य कालेनेश्वरमूर्तिनाम् आत्मा नित्यो व्य अशुद्ध अविक्रिया क्षेत्रग्र आश्रयः अविगृह्य स्वदिग्धेतुर्व्यापको संज्ञानृतः एतैर्द्वादशभिर्विद्वान् आत्मनो लक्षणै परहेह अहं ममेत्य सद्भावं देहादौ मोहजं त्यजेन् स्वर्णं यथाग्रावसु क्षेमकारः क्षेत्रे सुयोगैस्तदभिज्ञ आप्नुयात् क्षेत्रेषु देहेषु तथात्मयोगैः अध्यात्मविब्रह्मगतिं लभेत अष्टौ प्रकृतयः प्रोक्ताः त्रय एव हि तद्गुणाः विकारा षोडशाचार्यैः पुमानेकसमन्वयात् देहस्तु सर्वसङ्घातो जगत्तत्सूरिति द्विधा अत्रैव मृग्यः पुरुषो नेति नेति त्यत अन्वयव्यतिरेकेण विवेकेनो शतात्मनां सर्गस्थानसमाम्नायैर्विमृश्यद्भीरसत्वरैः बुद्धेर्जागरणं स्वप्नश्च शक्तिरिति वृत्तयः तायेनैवानुभूयन्ते सोऽध्यक्षपुरुषपरः एभिस्त्रिवर्णैन्पर्यस्यैर्बुद्धिभेदैः क्रियोद्भवैः बुद्धे वायु स्वरूपमात्मनो बुद्धेर्गन्धैर्वायोभिमान्वयात् एतद्वारो संसारो गुणकर्म निबन्धनः अज्ञानमूलोपार्थोऽपि पुंसः स्वप्नैरेष्यते तस्माद्भवद्भि कर्तव्यं कर्मणां त्रिगुणात्मनां बीजनिर्हरणं योगप्रवाहो परमं धियः तत्रोपा सहसा भगवत यदीश्वरे भगवती यथा ये रंज गुरु भक्त्या नचा। संगेन यहांसारथि गुश्रू गुरुशुश्रूषा भक्त संग भक्ता ईश्वराधन चया तत्कर्तन गुणकर्मण तत्पादाम्बुरोध्य ध्यानान्तल्लिङ्गेशार्पणादिभिः हरिः सर्वे सु भूते तु भगवानास्तेश्वरः इति भूतान मनसा कामैस्तै साधुमानये एवं निर्जितं सद्वर्गे क्रियते भक्तिरीश्वरे वासुदेवे भगवती जया संलभते रतिं निशम्यकर्माणि अतुल्यान् निर्याणलीलातनुभीकृतानि यदाति हर्षोत्पुलकाश्रुगद्गदंगायतिरोति नित्यतीं यदा गृहग्रस्तैव क्वचिद्ध्याति वन्दते जनं मूर्चसंभक्ति हरे जगत्पते नारायणीत्यात्ममतिर्गतत्रप तदा पुमान्मुक्त समस्तबन्धन तद्भावभावानुकृताशया कृतिः निर्दब्धबीजानुशये महीयसा अधोक्षं समेत्यथोक्षजम् अथोक्षं जालम्भमिहाशुभात्मनः शरीरिण संसृतिचक्रसातनं तद्ब्रह्मनिर्वाणसुखं विदुर्बुधाः ततो भजध्वं हृदि हृदीश्वरम् कोटिप्रयासोऽसुरबालकाफरेपासनेश्वद्रवत्सतः स्वस्यात्मनः सख्युरसे सदेहिनां सामान्यतः किं विषयोपपादनैः राज कलत्रं पशवः सुधायो गृहामहि कुञ्जरकोशभूतयः सर्वेर्थकामाचणभङ्गुरायुषः कुर्वन्ति मर्चर्यः क्रियत्प्रियं जलाः एवं हि लोका कृतभिकृताय मि शैष्णव सातिशयाननिर्मलाः तस्माद्दृष्टः श्रुतदूषणं परं भक्तेकयेथं भजतात्मलब्धये यदर्थेह कर्माणि विद्वन्मान्यस्य कृनरः करोत्यतो विपर्यासम् अमोघं विन्दते फलम् सुखाय दुःखमोक्षाय सङ्कल्प ह्य कर्मिणः सदाप्नोतिहया दुःखम् अनीहायाः सुखावृतः कामान् कामयते काम्यै यदर्थमिह पूरुषः तवै देहस्तु पारक्यो भंगुरो या तु पैति च ्राज्यं कोसगजामात्यभृत्याप्ता ममतास्पदा किमेतैरात्मनस्तुच्छैः सह देहेन न स्वरैः ननर्थैरर्थसङ्काशै नित्यानन्दमहो दधेय नृप्यतामिह स्वार्थः क्रियां देहाभितोशुराः निषेकादि स्वस्थासु क्लिश्यमानस्य कर्मभिः कर्माण्यारभते देहेनात्मानुवर्तिना कर्मभेस्तनुते देहम् उभयं त्वविवेकतः तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः भजता नियमिहयात्मानम् अनीहं परिमेश्वरं सर्वेषामपि भूतानां हरिदाते स्मरप्रिय भूतैर्महद्भिः स्वकृतैर्कृतानां जीवसज्ञितः देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च भजन् मुकुन्दचरणं स्वस्तिमान् साध्यथाभयं नालं द्विज त्वं देवत्वमृषित्वं वासुरात्मजाः प्रीणताय मुकुन्दस्य न वृत्तं न बहुघ्यता न दानं न तपोनिद्या न प्रियते मलिया भक्त्या हरिण्यद्विडम्बनं ततो हरौ भगवती भक्तिं कृतदानवाः आत्मौपम्येन सर्वत्र सर्वभूतात्मनेश्वरे दैतेयायक्ष रक्षांसि श्रियः श्रुद्रावजौकषः खगामृगाः पापजीवाः सन्ति हत्युततां गताः गीतावादेव लोकेऽस्मिन् पुंस स्वार्थपरस्मृतः एकान्तभक्तिर्गोविन्दे सर्वत्र तदीक्षणम् इति श्रीमद्भागवते महाप्राणिपां सीतायां सप्त स्थम स्कन्धे प्रह्लादलानुचरिते नाम सप्तमोऽध्यायः